नारायणीयं दशकं फोर्टि एय्ट् मीटर् वंशस्थं मुदा सुरौखैस्त्वमुदारसम्मदैरुदीर्य दामोदर इत्यभिष्टुदः मृदुदरस्वैरमुलूखले लगन्न दूरतो द्वौ ककुभागुदैक्षधाः कुबेरसूनुर्नलः कुबराभिधः परो मणिग्रीव इति प्रधां गदः महेश सेवाधिगतश्रियोन्मदौ चिरं किल त्वद्विमुखावखेलतां सुरापगायां किल तौ मदोत्कडौ सुरापगायद् बहु यौवदावृतौ विवासौ केलिपरौ स नारदौ भवत्पदैकप्रवणो निरैक्षत भिया प्रियालोकमुपातवासः सं पुरो निरीक्ष्याभिमदान्धचेतसौ इमौ भवद्भक्त्युपशान्तिसिद्धये मुनिर्जगौ शान्तिमृदे कुतः सुखम् युवामवाप्तौ ककुभात्मदां चिरं हरिं निरीक्ष्याथ पदं स्वमाप्नुदम् इदीरितौ तौ भवदीक्षणस्पृहां गतौ व्रजान्ते ककुभौ बभूवधुः अदन्त्रमिन्द्रद्रुयुगं तथाविधम् समेयुषा मन्धरगामिना त्वया चिरायितो लूकलरोधनिर्धुतौ चिरायजीर्णौ परिपादितौ तरु अभाजिशाखिद्विधयं यदा त्वया तदैव तद्गर्भतलान्निरेयुषा महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द भवानपिस्तवैः इहान्यभक्तपि समेक्ष्यतिक्रमाद्भवन्दमेतौ खलु रुद्रसेवकौ मुनिप्रसादाद्भवदङ्घ्रिमागतौ गतौ वृणानौ खलु स्तरुद्दारण दारुणा रवप्रकम्बिसम्पादिनि गोपमण्डले विलज्जितत्वज्जननी मुखेक्षिणा व्यमोक्षिनन्देन भवान् विमोक्षदः महीरुघोर्मध्यगदो बदार्भको हरेः धुना युधि ब्रुवाणाैर्गमितो गृसम्भवान् मरुत्पुराधीश्वर पाहि मां ददाद सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द